ओम् त्रियम् भगम् विजामहे सुगन्धम् पुष्वर्धनम् दुर्वारितमिव बन्धनान् मृत्योर्मुक्षीयमामृता आतु यो रुद्रो अग्नूयो अप्सुज ओषधीषु यो रुद्रो विष्टा भवना विवेश तस्मै रुद्रा जनमो अस्तु अपैत मृत्युरमृतम् न आगनु वैवस्पतो नो अभयम् कृणोतु तन्मङ्गनस्पतेभाभिनश्चीयताङ्गरैश्च तान् नश्यति पतिः परम् मृत्यो अनुपरे हि पन्थाम् जस्ते स्व इतरोदे वजान आत् चक्षुष्मदेशम् भजेते एप्रवीविमानः प्रजागूरीविषो मोतबीगान् अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूत् सजोषा आह यस्यंसतेऽस्तु वतेधाजिपद्य इन्द्रज्येष्ठा अस्माम् अवन्तु देवाः एते सहस्रमहितम्पासा वृत्यो मृत्याजहन्तवे तानि यज्ञस्य बालिधासभानव यजामहे मृत्यवेस्वाः मृत्यवेस्वाः प्राणानाम् गन्धिरशिरिद्रोमापि शान्तकः तेनान्नेन आप्याजस्व न मृर्जायविष्णवे मृत्युर्ने पाहि सदाशिवो सर्वेषाम् सर्वापमृत्युर्नस्य ओम् शान्तिः ओम् भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये भूद्भुवः स्वप्रपद्ये ब्रह्म प्रपद्ये ब्रह्मकोशम् प्रपद्ये मृतम् प्रपद्ये अमृतकोशम् प्रपद्ये चतुर्जालम् ब्रह्मकोशम् यम् मृत्युर्नातश्च रितम् प्रपद्ये देवान् प्रपद्ये देवपुरम् प्रपद्ये परीभृतु वरीभृतो ब्रह्मणा ब्रह्मणाहम् तेजसा कस्य पश्य यस्मैकमस्तच्छिरोधम् मम मूर्धानम् ब्रह्मोत्तराहणोधराविष्णुहृदयम् संवत्सरः प्रजननमस्विनौ पूर्वपादावक्त्रिर्मध्यम् मित्रावरुणा वपदपादावज्ञुः पुच्छस्य प्रथमम् काण्डम् तत इन्द्रः ततः प्रजापतिरभयम् च दुर्धम् एष दिव्यस्य आक्परः सुषुमारस्तगम् हय एवम् वेदापपुनर्मृत्युम् जयति जयति स्वर्गम् लरतम् नाध्वनिप्रमीयते नाग्नौ प्रमीयते नाप्सुप्रमीयते नानपत्यप्रमीयते लघ्वाङ् नो भवति ध्रुवस्त्वमसि ध्रुवस्य क्षितमसि त्वम् भूतानामधिपतिरसि त्वम् भूतानागुश्रेष्ठोऽसि त्वाम् भूतान्युपपर्यावर्तन्ते नमस्ते नमः सर्वन्ति नमो नमः शिशुकुमाराय नमः ॐ नमप्राच्यै दिशे याश्च देवता एतस्याम् प्रतिपसम् चेताभ्यश्च नमो नमो दक्षिणायै दिशे याश्च देवता एतस्याम् प्रतिपसङ्केताभ्यश्च नमो नमः प्रदीच्यै दिशे याश्च देवता एतस्याम् प्रतिपसङ्केताभ्यश्च न मो नमः उदीईच्यै दिशे याश्च रेवता एतस्याम् प्रतिपसङ्केताभ्यश्च नमो नम ऊर्ध्वायी दिशे याश्च रेवता एतस्याम् प्रतिपसङ्केताभ्यश्च नमो नमो धराजि दिशेयास्त्येवता एतस्याम् प्रतिपसङ्केताभ्यश्च नमो नमो वान्तराजिदिशेयास्त्येवता एतस्याम् प्रतिपसङ्केताभ्यश्च नमो नमो गङ्गायमुनयोर्मध्ये जन्ति ते मे प्रसन्नात्मा स्थिरम् जीवितम् वर्धयन्ति नमो गङ्गा यमुनयोर्मनिभ्यश्च नमो नमो गङ्गायमुनयोर्मुनिभ्यश्च नमः